थ त्रयोदशः सर्गः अददर्हम् महाराजम् शयानवरथोचितम् ययातिमिव पुण्याम् ते देवलोकात्परिच्युतम् अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी पुनराकारयामास तमेव वरमङ्गना महाराजसत्यवादी दृढव्रतः मम चेदम्बरम् एव मुक्तस्तु कैकेय्या राजा दशरथस्तदा प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव मृते मयगते रामे वनम् मनुजपुङ्गवे हन्ता नार्ये ममामित्रे सकामा सुखिनी भव स्वर्गेऽपि खलु रामस्य कुशलम् दैवतैरहम् प्रत्यादेशाद प्रत्यादेशादभिहितम् धारयिष्ये कथम् वता कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम् यदि सत्यम् रवीम्येतत्तद सत्यम् भविष्यति अपुत्रेण मया पुत्रश्रमेण महता महान् रामो लब्धो महातेजः स कथम् मया शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः कथं कमलपत्राक्षो मया रामो विवास्यते कथमिन्दीव रश्यामम् दीर्घबाहुम् महाबलम् अभिराममहम् रामम् स्थापयिष्यामि दण्डकान् सुखानामुचितस्यैव दुःखैरनुचितस्य च दुःखम् नामानुपश्येयम् कथम् रामस्य धीमतः यदि दुःखमकृत्वा तु मम सङ्क्रमणम् भवेत् अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् नृशंसे पापसङ्कल्पे रामम् सत्यपराक्रमम् किम् विप्रियेण कैकेयी प्रियम् योजयसे मम अकीर्तिरतुलालोके ध्रुवम् परिभविष्यति तथा विलपतस्तस्य परिभ्रमित चेतसः अस्तमभ्यागमत्सूर्यो रजनी चाभ्यवर्तत सा त्रिया मातदार्तस्य चन्द्रमण्डलमण्डिता राज्ञो विलपमानस्य नव्यभासत शर्वरी सदैवोष्णम् विनिश्वस्य वृद्धो दशरथो नृपः विललापार्तवद्दुःखम् गगनासक्तलोचनः न प्रभातम् त्वयेच्छामि निशे नक्षत्रभूषिते क्रियताम् भद्रे मयायम् रचितोऽञ्जलिः अथवागम्यताम् शीघ्रम् नाहमिच्छामि निर्घृणा नृशंसान् कैकयीम् दृष्टम् यत्कृते व्यसनम् मम एवमुक्त्वा ततो राजा कैकेयीम् संयताञ्जलिः प्रसादयामास पुनः कैकेयीम् राजधर्मवित् साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः प्रसादः क्रियताम् भद्रे देवि विशेषतः शून्येन खलु शुश्रोणि मयेदम् समुदाहृतम् कुरु साधु मे बाले सहृदयाहस्यसि प्रसीद देवि रामो मे त्वद्धत्तम् राज्यमव्ययम् लभतामसि तापाङ्गे यशः लोकस्य गुरूणाम् भरतस्य च प्रियमेतद्गुरुश्रोणि कुरु चारुमुखे क्षणे विशुद्धभावस्य हि दुष्टभावादीनस्य ताम्राश्रुकलस्य राज्ञः श्रुत्वा विचित्रम् करुणम् विलापम् भर्तुर् प्रशंसा तीव राज्ञो व्यथितस्य सा निशा मनस्विनः विबोध्यमानः प्रतिबोधनम् तदा निवारयामास स राजसत्तमः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे त्रयोदशः